अवपत्े दशकं भगवान् सैन्द्रियन् वीटक पैरन्द्यास्तदनुचिरं स्मरा दुराया का यातु भू सुललितमोद्धवेन सार्धं आवासं त्वद्भगमोत्सवं सदैव ध्यायन्त्या प्रतिदिन स सज्जिकाया का उपकदे त्वयि पूर्णमनोरथां प्रमदसं प्रमकं प्रपयोदरां विविधमाननमा पृष्ठाभरं पुनरसो अवृणोत्पदाके भूयस्मया सुरदमेव निशान्तरेषु सायोज्यमस्मि दिवते बुदयेभ कामो सामीप्यमस्तनिशमेध्य विना भ्रमे किं ततो भवान् देव निचुखाशुचित् केदृशं तां निभृतं विनोदयन् अदुपश्लोकयदेश दं सुतो सनारद सात्वद तन्त्रविद्भो अक्रूरमतिरमितोत बलोदवाभ्याम् अभ्यच्यतो भगुनुतो मुदितेन तेन येन विसृज्य विपिना कदपाण्डवेयं वृत्तं विभेचित तदा धृतराष्ट्रेष्ठां वेदाञ्जामादुको परमसुकृतो भोजनपते जरासन्ते वृन्धत्य न वदे रुषान्धे च मथुरां रदाच्यजो लग्नैः कतिपयबलस्त्व बलयोदक त्रयोविंशत्यक्षौगिणी तद्भनिता समकृता बला का बद्धं तपलेन बलोत्तरं त्व भूयो बलोत्यमरसेन मुमोचितैनो निःशेष दिग्जय सम कृतो फलपौरुषमांस्ततानि भग्नस्लग्नकृतयो पि ऋपै प्रणं नोद्धं त्वया व्यधितचोडचक्रत्वम् अक्षोगिणे शिव शिव स जखं तमिष्णो सम्पो य सैखनवदे त्रिदशं ततानि अष्टादशैषस्य समरे समुपेयुषि त्वं त्र ष्टा पुरोथयमनं यवनत्रिकोङ्ख्या त्वष्टा विधाप्यपुरमाशु भयोधिमध्ये तत्रा दयोगबलद स जना नैशिखे पद्म्यां त्वा पद्ममाले चकित इव निर्गतो धावमानो लेचे शेयं नानुयातो पदसुकृदविहीनेन शैलेन्यलेशीये शुद्धे नाङ्ग्रया कथेन कृतमदमुचुकुन्देन भस्मि कृतेऽस्मिन् भोपायास्मै कोकान्त सुललितवपुषा दशिषे भक्तिं बाजे अक्षोको काँ विरक्तोऽस्म्य किलन्दपशुखे त्वत्प्रसादैककाङ्क्षे ह देवे देस्तुवन्तो परविदोषुतो वे निष्पृग वेच कृष्यन् मुक्ते मोक्षम कार्यं किं सापि शुज्ञे तव यदि च तता प्रार्थलोकप्रदीज्ञे तदनुमतुरां चरमविजयं दद्भायास्मे प्रधाय पलायितो दशकं द्वारका 88 रुक्मिणि कल्याणं एप त्रिदे भवतयेव कौशल त्रिदस दत्त समस्त विभोते मत जलदि मध्यगतं वपुरं बपुरञ्जित रोचषा ददोषिरे वभो मलप्र तनया वि सनात् मये दमोद स घोष मो घोषक समुदीत मोदिते सगो दे आ पसु धुक्मि प्रणयिनीम त्वयिते बसको चिरत्रदप्रणयातय बालिका सबदि काङ्क्षे दभङ्क समाकोला तव निवेदयितं तिजमादिशत स्वकदनं कदनं गन्मे तिजसुतो बेचतो नमोपायज भवपूरं के दोरा च दोरा सको मो दवाप सातर पो चिख स भवता भवता पकृता स्मया स च भवा मो च दुण्डिने रेदा कलो राजति रूक्मिणी कये समो तिमां किल चे दिन्द्रोदुना अयि कृपालय पालय मिथे प्र जगते कपते तया अशरणं यतिमां त्वमोपेक्षसे सभति जीवितमे भजगां यघाँ इदि कृ सोधनो रदनोत्प्रशा सुहृदयं कृतयं तभकाधरो अगतय त्वम ते तद यदि का मम मन्नदमेदना विपसमक्षमुपेत्यं यख दयितां दयितामसि ते क्षणं प्रमुदितेन च तेन समन्तता रघकतो लघु कुण्टिन मे मने कुरुमरुन् पुरना यज्ञे भवान् मे दनुतां दनुतामखिलापदा बल समेत बलानवान् पुरमका कदमे मकमाक किदं तदुप कमबादिना प्रधरसा तरसा प्रणनामसा भुवनका तमवे भसुदस्य नियचेष्टितो विपुलकेद दजोषां पोरवासिना सहोुदि रुदितेरगमन्निषा तदनुबन्दे तु मिन्त मुकेशिवा मिगिता मङ्गलभोषण बसुरा निरगमग्भव सपोर द पोरदा सोपाटामृता कुलाबो बेरोबे च कुमरका गिरि सुता परि पो जाद मुकुरया द पङ्ख चे निपदि तबे बल स्यालो काकोदो कलो लेपासुदा निरगा हिरि जालयात् सुरुचिरं रुचिरञ्जित तिङ्मुख भुवनमोघनरो परोचतता विवसिता किल राजकदम्बया त्वमभिदे बकटाक्षभे मोक्षणैके प्रमोदया मदयां च कृषे मनाके कदुकमेशदि चन्द्रमुखेति तां सरसमे जकरेण करं क्षणोते समदिरोप्यरधं त्वमब कृत का ो ने न दोषा कोन कद पशुपालयदे कृता कृपा नद भवाच तैो पिसुनगे सुनकैरेव से ददन कदम गवे वदमुनि बिरोपयन् कृतमतम् बल किमे रमया रमया सकया नव कमल चेतमानसां प्रणयकौदकम्मतां परमयकलनात सुखं रघसितां कसितांखे विविदेव पुनरे गता रुजमते किलभक्त्रिरा भवाण्डे भरदनोरदनोतलोलतां ददधिकैरदलालन कौशलैके प्रणयिनी मदिकं सुख दशकं शमन्दकम याचिपद सत्रो जिदस्तमदलप्तवदर्घलब्धं देव्यं शमन्तकमणिं भगवन्नयाचीके तत्कारणं भगविदं मम पादिनो न तस्यात्मजां धैरतां चलदो विमोढं अदत्तं तं दोप्यं मणिवरमणेनाल्पमनसा प्रसेनस्तद्भ्राता कलपविभगन् प्रापमृगया अगन्नेनं सिंहो मणिमघसे मां सभ्रमवशात् कपीन्द्रस्त्वं गत्वा मणिमभि च बाला चचमचुच्चत्रो जज्ञिरमनो जना स्वां मणिकरो जनानापि योषं भवति गुणिनां दोषगणिका तदा सर्वज्ञोऽपि स्वजनसहितो मार्गणपरग प्रसेनं तं दृष्ट्वा कदो कदोपो कविगुखा भवन्तमभिदग्या अधिभया स्वयं च भवान् मुगुन्दचरणं किमां कै करोतु मे चालपन् विभो रघुपते करें जय जये चलं मुष्टिभिगे चिरंस्तभसमर्चनां व्यधिभक्तचोठां मणिके भूत्वा ददेन दत्तां न वरमणिं वरमणिं च परिगृह्णन् अनुगृह्णन् नमो मा गाका सबदि च सत्राजिते मणिं व्राताका तदनु सकल प्रीला लोलो विलोलविलोचना लो लो दुहितरमको दीमान् वा मां गिरेव परार्पिताम् अदितमणिनातोभ्यं लभ्यं समेध्य भवानपि प्रमुदितमनस्तस्यै वातात् मणिं गगनाचयग रेडाकुलां रमयदे त्वयि सत्यभा मां कौते यता कथयादकुरुन् प्रयोते हि कान्तिनेयकृदवल्मकिरा निवात्य सत्राजितं सददनोर्मणिमा जगार शोकात् कुरुन्नताम् अवलोक्य कान्तां हत्वा धृतं सददनं समघक्षञस्तां रत्ने शङ्क इव मै अक्रोर एष भगम भवदे चैव सत्र जितः क्वचरितस्य यो जकिंसाम् अक्रोरतो मणिमनाकृतवान् पुनस्त्व तस्यैव भूतिमुपदातु मिदे वृमन्ते भक्तस्वै स्थिरतर सजिकान्तिनेयक तस्यैव का पदमति कदमीशजाता विज्ञानवान् गर्भं ध्रुवं शमयदं भवदा कृदैव राथं भयेन कृतवन्मयुधं पुनस्तमाकूय तत् विनिहितं च मणिं प्रकाश्य तत्रैव सुव्रतरे विनिधायतुष्यन् भामाकुशान्दर चयं सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द एकं द्रौपदी त लालयं सत्यभा मां यादौ भूयः सखलु दया याज्ञसेने विवाको पार्थप्रीथे पुनरभिमनागास्थितो हस्ते भुव्यां चक्रप्रस्थां पुरमभि संविधाय गतो भोगो भद्रां भद्रां भवद भरजां कौरवे नाट्यमान त्व चा तामगृत गनामस्तरे चक्रसोनक्रो बलमनुनयन् प्रत्यगास्तेन सार्दा चक्रप्रस्थां प्रियसखमुते सख्यभामा स गायक तत्र क्रीडन्नपि च यमुना कोलधृष्टां गृहे त्वा तां काळिं Naga-ra-maga-maga. पाण्डवप्रीणिदाग्निः प्रादुर्भं प्रणयमिवशां ते वपतृश्वसे राज्ञां मध्ये सबदि जगृषे मित्रविन्दां हवन्तीं सत्यां गत्वा पुनर्तवको नग्नजिन्नन्दनां तां भत्वा सप्ताभि च वृषभरान् सब्दमूत् he <laughs> भद्रां नाम प्रददुरदथे देवसंदर्दनात्या तत्सोद्यां वरत भवदस्सापि पैतृश्वसेयी पार्थात्यैरप्यकृदलवनो तोयमात्राभिलक्ष्मो लक्षं चित्वा च परमुवृताका लक्ष्मणमत्र वल्लभास्तत्र मध्ये शुश्रोदत्वा सुरपति किरा भौमतो चेष्टितानि प्रथा यथ पाक्षे प्रवरमगे रोढस्त्वमगमो भगन्नं के मा उपवनमि वा रातिभवनो बिबिन्दं दुर्घाणे त्रिणिदभ्रतना चोणितरसिंहे पुरं दावते प्राग् ज्योतिषमकुरुता चोणितपुर मोरस्वां पञ्चास्यो ज्ञादत वददे चचक्रे चक्रे चक्रेण प्रदलित चिरोमंक्षु भवत च दुर्दन्दैके दन्दा वलपदि पिरन्दा न समरो ददाङ्केन चित्पा नरकमकरोस्तेर्नरकं त्वथा भूम्या राज्ञा सभदि भगधत्ते स्यदनये गजं चैकं तत्त्वा प्रजिघयितनाकान्निजपुरो कलेनाबद्धानां स्वगदमनसां षोडच पुनसग सख्राणीस्त्रीणामपि च धनराशिं च विपुलं पौमाबाकृदकुण्ठलं तददितेखे तादुं प्रयातो दिमम् चक्रोटे मयिदस्समं दयितया द्युश्रेष दत्तक्रिया कृत्वा कल्पधरुं वृषाभिपदिता जितेन्द्रमभ्यागमग ततो श्रीमददोषये दृशयिते ख्याकृताका कल्पत्रं सत्य भामा भवनि सृजलने दष्टसाग्रयोषाका स्वीकृत्य प्रत्यगारो पिहित बहु बकुको लालय के लिबे दै आचर्यान् नारदालोकितविधगतिके तत्र तत्राभिके के गोयसर्वासु कुर्म दश दशतमेयान् पाहि वातालयेश सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द अण्तिरण्डां दशकं रुक्मिपदं प्रद्युम्नो रुक्मिणेयकं सकलतवकला चम्बरेण कृदस्तं गत्वा रत्या सकाब्धो निजपुरमगरद् रुक्मिकन्यां च धन्यां तत्पुत्रो दानुरुद्धो गुणनितिरबथ रोचनां रुक्मिपौत्रीं tro tro ke gadasom ne badi musalino laknya bechoda vai ra te पाणस्य सा बलिसुधस्य सघस्य बोगो माकेश्वरस्य मयिता दुहिता किलोषा त्वमनिरुत्तमद्रष्टपूर्वा स्वप्नेन भूय भगवन् विरगाधुराबोत् योगिन्यते बकुशला खलु चित्रलेखा तस्या सखीं विलिखति तरुणा न तत्रा निरुत्तमुषया विदितं निशया, आनेष्टयोगबलतो भवतो निकेतात् कन्यापुरे दयिदया सुखमारमन्तं चैनं कदंचनपबन् दुषि सद्भवन्तो श्रीनारदोक्तदुदन्त तुर तरोषैके त्वं तस्य चोणितपुरं यदि विन्यरन्ताका पुरीपालशैलप्रियद्वयतृनातोस्य प्रातेखे समम्भूत प्रातैः यद्बलमशङ्का निरुते प्राणो बाणो जडिति युधानेन ययु गुहप्रद्युम्नेन त्वमभिपोरकन्त्र जगटिषे निरुद्धा चे शास्त्रे मकुशे दवाश्रेण गिरिशें कृतभोत बिताका प्रमदकुलवे प्रमदिताक परास्कन्तस्कन्तकुसुमचरबाणै च शिवग सकुम्पाण्डभाण्डौ नवमिव बलेनाशु बिभिते चापानां पञ्चचत्या प्रसवमुबकते चिन्न चापेदपाणे व्यत्ययते समेतो ज्वरपतिरचने ये अज्वरे तज्वरेण ज्ञाने स्तोपदतत्वा तव चरिदजुषां विज्वरं सज्वरोत् प्रायो तज्ज्ञानवन्तोऽपि च भगुतमसा रौद्रचेष्टा किणं नानायुदोग्रं पुनरभिपदिता दद्वदोषात् निल्लो न चेश दोषो सभदि बो दोष शङ्करेणो भगीथग तत्माच चेष्टभगवत् तत्प्रियं तो मुक्त्वा दत्तमानौ निजपुरमगमग स निरुतः सघोषक मगोस्तवच्चक्रं वरुणमयनन्दकरणे a <laughs> यमं बालनेतो तव तनपाने निलसतो विधिम्बस्ति ये गिरिशमिकपाणस्य समरे विभो विस्तोत्षे तदयमवधारो जयदिते द्विज रोषाग्रगलासवबोर्धरो ऋकजृपं त्रिदे वालय मापयम् द्विज जने दिजर मूना दशकम् पौण् वासुदेवागव दूने अनुमे ोतानुपेतयमुना दमने मदन्ते स्वैरं समारमधिसेवक वा तमोडो दोदं न्ययं तक्तवण्ड्रकवासुदेवकनारायणोकमभते नयिका स्मि भोमो दत्से किल त्वमभिमामगलक्षणानि पुसृजतानि शरणं प्रजमा मे दे त्वा दोतो जकाद सकले हसितः या दोतेतायदवदि यादव सैनिगष्टवं यदो ददर्शितवपो तेलापंड्रेकियं तापेन वक्षसिकृतांक मनोल्पमूल्य श्रीकौस्तुपा मकरकुण्ठलपेदचेलं कालायसं निज सुदर्शनमस्य दोष कालानलोत्करकिरेण सुदर्शनेन शेषं च गत्तिदममचास्य सेनां तं नेत्रकाशिबचिरो विचकत्तकाश्यां जाटेन बालकिरापि किल कमेव श्रीवासुदेव चिरंसख सायोज्यमेव भवदे कदि आगतो भोत् को नामकस्य सुकृतं कदमित्यभियात् काचीश्वरस्य तनयोदशो दक्षिणाख्यक सर्वं प्रबोध्य भवते विहिताभिचारक कृत्यानलं कमपि बाणरणादिबीतैः भूतैः कथञ्चन हृदये सममाप्यमुञ्च कालप्रमाणचरणाम् अखिलं दगन्ते कृत्यां विलोक्य चयते कदितो विभोके द्योदौ सवे किमपि नो चलितो विपुतो वास्वस्तमास विससजितकालचक्रम् अभ्यापदत्यमिदधाम्नि भवन् मघाश्रेयं हा के दिविधृतवते फलखोरघृत्या प्रोषासु दक्षिणमदक्षिणचेष्टितं तं पप्लोषचक्रमभि काशीपुरीं मदक्षेत् सकलु बिवितों रक्षोघाते कृतो बकृति पुरा तवद् कलयामृत्यं प्राप्तो तदा गदक नरकश शिवो देशक्लेशा सृजन्नकरान्दिके जडिति कलिना योध्यं नद्दा क पपादतलकदक साम्बं गौरव्यपुत्रे हरणनियमिता सान्त्वनाट्ये कुरोणां यादस्तत्वाख्य रोषोन्द्रुत करिनकरो मोचयामास रामके घात्या पाण्डवे यैः इति यथोतनां नामोचस्वं सर्वत्र दशकं सूर्य ग्रहण्यतीर्थं क्वचितत तपनो बरङ्ग काले पूरि ददन्त बसो नो यदु कुल मेला वृद सो देता समपगतो समन्त पञ्च भगोदर जनदाय दा तत्र त्वमभि पुनन्दिनी मज्जते ततो तिज कणपरे मुक्त वेतराशिके सममिलदार पाण्डवादि मित्रैके तव खलु दयिता जनै समेता द्रपद सुधा त्वय तदुदित भवदा कृते प्रकारै गे आदि मुमु ते सममन्यभामिनीपि तदनु च भगवन् निरीक्षकोपाने आदि कुदुकादुपकम्यमानयेत्त्वा चिरतरविरका तुकरे काका पशु भवदो सरसं त्वमन्वयसि के सभदे च भवदे क्षणोत्सवे प्रमोषितमान कृता निरस परे मोक्त कञ्जोके परिकृत्य धरे पुनर् पुनर्मे समुपक धैर्यते विलम्बना पोत् विधि कृ परिणे अधि विवचा कलु धे रा वेदास्ता ददा ता राग सी विदा यत् तत्त्वबोध परम सुगचो कमत्म्ये ते उदयस्पटमे बचेत से ते सुकरस परिमे श्रुतौ वियोगक किमपि पुरा भव दुत्तवो भदेशैके समभवदमुतः परं दुदासां परमसु कैक्यमये भवत् विचिन्ता मुनिभरनि बकैस्तवोदपित्र दुरिदशमायश पाणिभ्रज्यमानैके कही सति किमि तं शुभान्तरे रेखे पुरकि तैरतासो सुमगधि जने, जने समय विदा ये प्रमोदित मित्र जने सकैको पाख यदु जन मगे दा मा समठो भवधनु शङ्कर सोरे भे जगो य भगम समय समेध्य राधां सर्वत्र दशकं जरासन्दना भगव अनुपुल् ततो मगधमो प्रदाम, शिरनिरोदसं क्लेशिता सदाष्टगयुधायुद हृदयमी शभो मे प्रताम् अनादचरणायते कमपि पौरुषं प्रागिणोदे अयाचदसमाघदक्षपणमेव किं भूयसा यासुरपि मागथा तदननारदो दीरितात् दे। योधिष्ठिरमगोद्यमाय कार्यपर्यकुलकैनो का त्वरा तु भेरुद्युत्तवे सशंशोषिनि जय सम पूरमिये दयधिष्ठिरे अशेष दये दयुते त्वयि समागते धन्मजो विजित्य सग जैन्मघे भवक संवर्ति तै श्रियं निरुपमां भग भक्तदा साहिता भवन्तमयिमागते प्रगीदवांस भे मार्जुनं गिरिं व्रजपुरं गतास्तदनुते भयोऽयं त्रयो यया च समरोत्सवा तिजमिषेणदम्मा गता अपूर्णसुहृदं त्वमो पवनजेन सङ्ग्रामयन् निरीक्षसकजेष्णुना त्वमभिराजय त्वस्थितः अशान्तसमरोत्त विटपपाठना संज्ञया निभात्यजरसस्तुता पवनजेन निष्पाठिता विमुचनपतिं मुदा समनुग्रह्य भक्तिं परा द्विदे चित्तगदस्प्रकान् अभिषदमगोप्तै भुवक प्रचकृषयोधिष्ठिरे तदनुराजसौ प्रसन्न प्रसन्नभृदगे भव सकलराजकं व्याकुलं त्वमप्यये जगत्पते द्विजपदा वने जोतिको जगर्तगे मृगज्ञतें यपवरस्य वाक्योन्नतिः तदस्स वनकर्मणे प्रवरमग्रमोचाभिते विचार्य सगदे भवां कनुकदस्स धन्मात्मजक यदत्थ भवदेमुता सदशेवेश्व भोतात्मने तदा स सुरमानुषं भुवनमेव दृप्तिं तदो तदस् चेति पो मुनिर् प्रेषु दृष्टस्वको सभा जयदे कोचटं पशुभदु दरूढं बडां यदि त्वयि सदुद्वचो विदधिमुत्तमन्नासनात् उदा वदुदायुतकः समपदन्न मं पाण्डवाका निवार्य निजपक्षकान् अपि मुखस्य वेत्ते षिणक त्वमेव जगृषे शिरो धनुजधारिण स्वारिणा जनुसृदय लब्धया सददचिन्तया शुद्धदेहे पया स परमेकथां हृदयोगिनां दुर्लपां तदस्सुमयिते त्वया ऋदुवरे जनो ययो जयदे दे जयदे जय दे कृष्णयेत्यालपन् कलसदु सुयोदनो रुदमना सपत्नश्रिय मया सलजल स्थलजलप्रमादभ्रमेते तथा कसितमोत्थिता द्रुबदन दनापि मयोको अभाङ्कलया विभो किमपि ता वदं जृम्बयण कृतो सभति नामन् जनार्दनमरोत्पुरे निलय पाहि माम् आमयात् सर्वत्र गोविन्द नाम गोविन्द गोविन्दरां दशकम् साल्वो ल्वाकै तगैव यद्बलिचि तन्द्रोटाभिमानम् न्दं शोभं समाये त्वयि वसति कुरुम् तद्भुरेमभ्यपाङ्क्षेत् प्रद्युं नस्तं निरुन्धन् निचिलयतु भटैके न्यक्रजे दुक्रवेण्यो कस्या माद्यं चुमन्थो यजनि च समरग सप्तविं शैत्यकान्तक तावत् त्वं रामशाले खण्डितप्रायसैन्य शोभे शं त्यरुन्दाका सेलगदया साङ्गमभ्रंशयत्ते माया दातं व्यजिंसीत् अभि तव पुरथ कुरेके tadeta mama matam vyasaye vanyashete te chimpon sombon गताचोनिदमुदगनिद मक्षु सार्वेभिचक्रेणोत्रे तन्दवद्र प्रसवमपि पतन् अभ्यमुञ्जद्गदां ते कौमोदक्यं कदं सो अभिसुकृदनिति हे चैत्यवत् प्रापदैक्यो सर्वेषां मेषपूर्व पयधृतमनसां मोक्षणार्थो गतार्ग त्वय्या याते तजाते किल सदसे चोदके सम्यदा याक ग्रन्थन्त्या याज्ञाका सकरुणमकृतो गा चेलमालाम् अनन्ता अन्नान्तप्राप्त सर्वां च च मुनिचगितद्रौपचे मुनिकणमकृताक तृप्तिमन्तं बनान्ते युद्धोद्योके तमन्त्रे मिलदि सति मृतक पल्कुनेन त्वमेक कौरङ्गे करिपुरमगमो दौत्यकृण्डवार्थं भीष्मत्रो नातिमान्ये तव खलु कौरवेण राब्रव विश्वरो पों मुनि सदा से पुरिम चौबय तो गतो पो कृष्ण संकष्ण सूतक कल समरम के भंद कांटे दयालो ते नम तमेश वेरों किमि दमई सके नित्य ए को यम आत्मा कोवज्ञोत्रकन्तां को तदिकभदभियं प्रोज्यमय्यर्पितात्मा धर्म्यं युद्धं चरेते प्रकृतिमनयताका दर्शयन् विश्वपो भक्तो तं सेद भीष्मे भवधरणि वरक्षेभकृत्यैकसत्ये नित्यं नित्यं विभिन्दत्ययुधसमधिकम् प्राप्तसाते च पार्थे नित्यस्त्रत्वप्रतिज्ञां विजगधरि वरं धारय प्रोदशाले भाताव प्राञ्जलिं तो नदशिरसमधो वेक्ष्य मोदादपाका युद्धे द्रोणस्य हस्तिस्थिररणभगदत्ते निता वैष्णवास्रं वक्षस्य दत्तचक्रस्तग प्रार्थय सिन्धुराज्ञो नागाश्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानां मकाशेत् योद्धादौ ते तामे सकलु खलदरो नैमिषत्रमृच्छन् अभ्रत्योत्तायिषो तत्क्षय कृतसुतं तत्पदे कल्पयेत्त यज्ञं पल्बलं बद्मणे परितलयन् स्रदतीर्थो रणान्ते सम्प्राप्तो मीमधुज्ञोदनरणमसमेषाथ प्रीं ते संशुब्दत्रौपधे यक्षपणखदति यं त्रौणिमेत्यत्वदोग् तन्मोक्तं राममस्र समकृतविजयो मौलिरत्नं च जग्रे उचेत्यै पाण्डवानां पुनरविच विचत्पुत्तरा गर्भमश्रे रक्षन् अङ्गुष्ठमात्र किल जठरमकोक चक्रपाणिर्विभो त्वर्मो गं धर्मसूनोक अभित किल चन्द मृत्युस्य भीष्मक त्वाश्य भक्तिभोम्नैभये सभदि यो निष्कलं भ्र संया जादाश्रमेधैके त्रिभिरतिमहितैके धन्मजं पूर्णकाम सम्प्राप्तो द्वारकान्तो पवनपुरपते पाहि मां सर्वरोकाद् सर्वत्र गोविन्द नाम संकीर्तनं गोविंदा गोविंदा एम्पत् एं दशकं कुचेलोपाख्यानम् कुचेलनामा भवदः सदित्यतां कदस्सशान्ति परिमन्दिरे त्तिजग त्वदे कराकेण धनादिनिस्पृको दिनानि प्रशमे गृहाश्रमे समानचेलापि ततीयवल्लभा तदै वनो चित्तजयं समे योषे कदाचित् चे पदवृत्तिलब्धये तमापते किं न सखा ते इति रितोऽयं प्रियया मतावके तदात्वता विदने मताबे तथा त्वता लोकनकौधात्ययोः त्वकं पठान्ते पृदुकानुपायना कदोयमाचर्यमयं भवत्पुरे कृगेक्षुसेभ्य भवनं समेयवान् प्रवीच्य वैकुण्ठमिवतिम् तवाधिसम्भावनयाद किं प्रभोजितं प्रबोजितं ता प्रियया च बीजितं करे गृहीत्वा कदय पुराकृतं चिन्दनार्थं गुरता रचोदितैः अपर्तु वर्षं तदमर्षिकानने प्रभोचोऽस्माद् मृदकं पलत प्रकृत्यमुष्ट ्रदं क्रदं नन्द्रियते दिशं रमात् प्रमाखिलोपेत्यकरं रोदते भक्तेषु भक्तेन समानि दष्टया पुरीं वसन्ने गनिशं मकसुखम् पदा परेट्युल् विनाययो विचित्ररूपस्तव कल्पनुग्रहक यदि क्यया चष्य मदास्यदच्युतो वदामि भार्यां किमितिं व्रजन्न स तदु किलिला पुनक क्रमादपश्यन् मणिदे प्रमालयं किं वार्गविभ्रं गृहं प्रविष्ट सददर्श वल्लभां सखे परीतां मणिजे मभोषितां पपोदच त्वत्करुणा मगात्मतां सरत्नचाला सुभसन्नभिश्वयं समुन्न मद्भक्तिपरामृतं ययो त्वमेव मापो हृद भक्तवाञ्छितो मरुत्पुराते शकरस्व मे गतान् सर्वत्र दशकं सन्तानगोपालकृष्णन् प्राके वाचार्यपुत्राकृते निशमनया स्वीय षट् सोनुवेषां कङ्क्षन्त्या माधुरुग्लभुवि बलिं प्राप्य तेना चिदस्मा पादोशापात् हिरण्यान् विदकशुभवान् सौरियान् कंसभक्नान् आनीयैनान् प्रदर्श स्वपदमनयता पूर्वपुत्रान् परीचे हे श्रुधते वहिदि श्रितं त्रिजेन्द्र बहुलं सुमृपतिं च भक्तिपूर्णं युगपद्वमनुग्रह ेत कामो मिथिलां समेतक कच्छन्द्रि मूर्तिरुपयोपन्निकेतं एके भोरि विभवै पियुतो प्रचारक अन्येन दत्तेन भृतश्च बलौ धनात्यैके तुल्यं प्रसेतित तदा तज मुक्तिमाभ्याम् भूयोदद्वारवत्यां तिजतनयमृतिं तत्प्रलापानमे भो वा दैवं निरुद्यात् इति किल कथयन् विश्ववोटाप्यसोढाका ज्यो गर्भं विनेता चास्य बुद्धिं तद्वारुढां परमदमपदप्रेक्षणे ने नेति मन्ये नष्टा कष्टास्य पुत्रा कां पुनर्भिधवधोऽपेक्षया स्पष्टो जातो जनानाम् अदददवसरे भारकामारपार्थक मैत्र्या तत्रोषितो सौ नवमसुतमृतो विप्रवर्त्य प्ररोदं श्रुत्वा चक्रे प्रतिज्ञाम् अनुभकृतसुदक संनिवेक्षे कृशानो वाणी सत्त्वमब्रष्ट्वा द्विजनिलयकतो बाण जालैमकाश्रैके वृन्दानसोदिके पुनर याम का पुनरविसगसा दृष्टनाट्ये कुमारे यां यामैत्रीं तदन्याका सुरवरनखरेर्विद्यया साध्य सद्यो मोहोत्यो कपदिष्य कुदभुजे भवता सस्मितं भूते सार्धं तेन प्रदेचे विशमदि च विना सन्दनेनापि यात लोकालोकं यदित तिमिरभयमतो चक्रधाम्ना निरन्द चक्रां चुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति बारां पारे सम्प्रादर्शक किमपि हितमसां दूरदूरं पदं ते तत्रासीनं भुजङ्कादिपशयनतले दिव्यभोषायुदात्यैके आवेतं पीदचेलो प्रदिनव जलद श्यामला श्रीमदङ्गो मूर्तीना मे चितारं परमिगधिषुणाम् एकमर्थं श्रुतीनां त्वमेव त्वं परात्वं मे ने प्रियसहसहितो नेमि दक्षे मरोपौ युवां मामेव त्वावदिगविभृतां तर्कि ददया काशा तिजसुतान् नयेतं त्राकेतात् इति कलु मितिनान् पुनरमान् तिजाया दाया दाका प्रणुदमयि मा पाण्डुजनुषा एवं नाना विकारैः जगदभिरमयन् कृष्णवंशं प्रबोष्णन् हे जानो यज्ञपेतैः अदुलविकृतिभि प्रीणयन्न नेत्राका गोपा रक्षे पदं पात पदकमलजुषां मोक्षणायावतिर्नग पूर्णं ब्रह्मैव साक्षात् यदुषमनुजता रोषिदस्त्व व्यलसे हे प्रायेण त्वारवत्यां अवृदयितथा नारदस्तत्र तस्माले पे कदाचित् खलु सुहृदनिदिगे तत्पिदत्त्वबोधो भक्तानामग्रयाय स च खलु मतिमान् उद्धवस्त प्राप्तो विज्ञानसारां सकिलजनकिता याधुना से बदर्यां सोऽयं कृष्णावदारो जयते तव विभो यत्र सौहार्तबीदे शेखेशानुराग प्रकृतिबिरदुलैः आश्रमे योगभेतैः आर्तिं तेत्त्वा समस्ताम् अमृतपदमको सद्भदः सद्वलोकाक सत्त्वं विश्वार्थी शान्ते पवनपुरपते भक्तिपूर्त्यै च भूयाक सर्वत्र गोविन्दनामसङ्गीर्तनं गोविन्द गोविन्दः